आदित्येभ्यस्वाम् वितपुरुगायै गते सोमसगूरकस्वमात्त्वादभन्नो कदाचनस्तरीरदिनेन्द्रजष्टविदा सुखे उपो वेन्नुमघवन् भूय इन्नु दानन्देव स विचद आदित्येभ्यस्वाम् कदा जन प्रचुभे निपासि जन्मनि सुरीयादित्यधवनन्द इन्द्रियमादस्तावमृतं दिव्यादित्येभ्यस्वां यज्ञो देवानामृते दिषुं न मादित्याजो भवता मृणयन्ताः आवोर्वाजीजुमद्भवित्यादग्मुहोष्ठिर्यावरिवो वित्तरा ददादित्येभ्य स्वाम् विभजवन्नादित्यैहदे जोमपीठस्तस्मिन्मक्षो शरस्मै नरोभे दधादनददा जीर्दादम्बदि वाम वस्तुतः पुमान्बुचोजाय देवदेव्यस्वधा विस्माहारव एददे गृहे वाम मय सवितर्वाममुष्पो दिवे दिवे पूजाभिः वामज्य देव भोरे रयाधिया वामभाया स्यामो उपयाम गृहीतोदि सावित्रोजि तनोधाष्टनो धा अजितनो मयिधेहि जिन्वरत्यञिन्वत्यवतिं भगाय देवाय सावित्रीम् उपयामगृहीतोधिषुधर्माधिप्रा नो बृहदुक्षाय नमः विश्वेभ्यतादेवेभ्य एहतेजो नृविश्वेभ्यतादेवेभ्यः उपयामगृहीतोधिबृहस्पतिसुरस्य देवजो मद इन्दोरिन्द्रियावता पत्नीवतो ग्रहाध्यागम् अहं परस्ताद्दहमवस्ताद्यदन्तर्षन्तलु मे पिता भूतो अहगूर्जमुभयतो ददर्शाहं देवानां परमङ्गुहाजतो अग्नाप्तिवीवन्धरुर्देवेन त्वश्वासोमं विव स्वाहाम् प्रजापदृपृाधिरेतो धारेतो महिरेः प्रजापदेष्टि वृष्णो रेतु हसो रेतो धामहीयो उपयामवृहीतो जिहरिरजिहारियो जनो हरिभ्यान्त्वां हर्योर्धारास्तदः सोमा इन्द्रायो यस्ते अश्वादा निरभक्षो योगोजानिस्तस्याय इष्टाय योगस्तु दत्तोमस्य तस्तोक्षस्यो बाहूतस्योपहूतो भक्षयामि देवर्दस्यैनसो वय जनमवि मनुष्यर्जस्यैनसो वय जनमजि पितृव्यदस्यैनसो واجدنا ماسك أتمر بالجينسو واجدنا ماسكين تقينسو واجدنا ماسين تتعامين وبتبام مشتقار للتعام بتبام مشتجرب بالجينسو واجدنا ماسين سنبر جذاب يتعدن تنوح رقن مهي منتا سكوش بينو स्वशातुरालो नु मार्तु तन्वोरगिरितंन्द्रणो मनदाने हि गोभिः रीभृमभवन् जग् स्वस्या सम्ब्रह्मणा देव ऋतञ्जलस्ति संव्रजदाभयगादन्तनूभिरगन्महिमनसाधकूंशिवेणो वट्टानुदतोरायोनुमार्ष्टुतन्वोजविदिष्टं धातारादिः सवितेदन्युघन्तां व्रजा बजुर्निधिपा देवो अग्निः कष्टापितुः प्रजयाध कुंरराणा यजमानाय द्रविनन्दधा स्वाहा सुगावो देवाः सदना अकर्मद आजग्मेदकुं सवलञ्जुघाणाः भरमाणा वहमाना हवीभुखियस्मे दत्तनि स्वाहा उषजो दवान्ेरये अग्ने रदे जखीवागुसा बिवाकुन चिवे जुमघर्मकुस्वराता स्वाहाय गुवाने मही हो ऋदगया ऋगुताशमिष्ठाः प्रजानन्यज्ञं पया विद्वान् स्वाहा देवा गातु विदो गातुं विद्वा गातुमितुं मनस्वद इमं देवरज्ञस्वाहातेधाः यज्ञङ्गचर्ज्ञवधिङ्गचस्माञ्जोनिङ्गच एकते रत्न्यो रत्न्यवदेदः सूक्तवा काः सर्ववीरत्तं युग तस्माभूर्मा प्रदातुः पुरुगूहि राजा वरुणश्चकारदुर्जाय पन्थामन्वेतवाहु अपदेपादाप्रविधातवे करुतापवक्ता हृदया विधष्टितो नमु वरुणाया वितो वरुणस्य वासः अग्नेरनीकमव दमे दमे सूर्यं दमेदमेदमिदं यक्षग्ने प्रदिदेर्भारतं तरण्य स्वाहा समुदेतेर्दयस्पन्दा झन्द्वाभिजन्द्वो गवीरुशापाः <Sess> यज्ञत्वा यज्ञदे सूक्तौ नमो वापेभ्रि मदस्वाहा देवी दे दे राव एकवो गर्भस्तग्पीलग् सुवृतं विवृतो देवसोमयि गते लोकस्तद्मिञ्च बक्ष्म परितभक्ष्मो अवभृतमितुं बुरनितेरुरगिरितुं पुराः अवदेवैर्देव हृतमेनुयाजिवमवमर्त्यैर्मर्त्य ऋतम्बुरुराब्ो देवरिव पाहि देवानाग्मिदति देवा एजतु दशमाद्यो गर्भो जरायुदासोः यथा यम्बायुरेदति यथा समुद्र एजति एवायन्दशमास्यो असृजरायुणासो यस्यैरे यत्नीयो गर्भो यस्यैजो निर्हिरण्यै अङ्गान्यरुतार्चतं मात्रा समजीवमगु स्वाहा पुरुदमुक्तिगुरूप इन्दुरन्तर्महिमानमानञ्जवीराः एकपदीन्द्रिपदीन्द्रिपदीं चतुपदीं व्यापदीं भुवनानुप्रदन्ता स्वाहा मरुतोजिक्षये पाधामहसाः चोपातमो जनाः महीत्यौः विधिविजन इमन्य कदा किन्नो हरीमभिः आदिष्टवृताहनृदयुक्ता ते ब्रह्मणा हरि हर्वाजीनगुसुते मनुग्रावागृणोद्वनाम् उपयामगृहीतो जीन्द्रायपाघोरशिन एहते जो निरुन्द्रायपाघोरशिने युक्ष्वाहि केशिना हरीवृगणागक्षप्रा अधान इन्द्र सोमपागिरामुपश्रुतिं चरो उपयामगृहीतो जीन्द्राय प्राघोरजिन एकतेजो निरिन्द्राय प्राघोरजिने इन्द्रं धरि वहतु प्रदीर्तशवसम् गृहीणाञ्जस्तु जीर्वजत्यञ्जमानुगाणाम् उपयामगृहीतो जीन्द्राय परो अन्यो असिर आविवेदभुवनामिति प्रजापधिः प्रदयाधुरसीणिज्योतिगुविददे सगोरसि इन्द्रचरं राड्वरुणश्च राजा तौ ते भक्षं चक्रतुरग्र एतं तयोरहवनुभक्षं भक्षयामिद्वाग्देवीजुहासो वचुदप्राणे रत्वा अग्ने वस्त वा अस्मे व्रजाः सुवीर्यम् दधद्रयिं मयिपुहम् उपयामग्रीहीजोस्यग्नयेत्वाव्रजध एह तेजो निरग्नयेत्वाव्रजधे अग्नेभ्यजस्मिन् व्रजस्त्वां स्पन्देवे ख्वजस्वानहं मनुक्षे भुभूजादम् उत्तिष्ठन्नो ददादहपि त्व प्रेय अवेपयः सोममिन्द्र चमूषुतम् उभयामवेहितोजीन्द्रायत्वौरध एगते जो दीरिन्द्रायपौरधे इन्द्रौ रिष्ठौ रिष्ठस्त्वन्दे प्रचोरिष्ठोऽहं मनुखे भूयादम् अजुश्रमजवे तवो विरश्मयो जनानु भ्राजन्तो अग्नयो जथा उपयामविहितोऽ सूर्यायत्वाभ्राजायैकते योनिः सूर्यायत्वाभ्राजाय सूर्यभ्रायुष्ठभ्राजिष्ठस्वन्दे क्व सुभ्रायुष्ठोऽहं मनुपये भूयासंतवेदसन्देवं वहन्दिकेतवः दृषे विश्वाय सूर्यम् उपयाम गृहीतो हि सूर्याय त्वाभ्याजायैकते योनिः सूर्याय त्वाभ्राजाय बिन्दवः पुनरुर्जानि वर्तस्वशानाः सहस्रं दुःखो रुदारापयस्वती पुनर्मा विशदाद्रयिः किरेरन्दे हव्ये काम्ये चन्द्रे द्योतेजीति सरस्वती महिभिश्रुति एता ते अग्नेनामानि देवेभ्यो मा सुकृतं ब्रूतातो विन इन्द्रमृदो जहिनीचार् चवृतन्यथा यो अस्मामभिदाहत्यधरङ्गमयातमः उपयामगृहीतो हीन्द्राय क्वाभ्यमृग एहते यो निरिन्द्राय प्राभ्यमृगे दे। बालपतिं विश्वकर्माणमूदये मनोजुवं वाजे अद्याहुवे मो नुविश्वानि हवनानि योगद्विश्वजम्भूरवशेषु कर्म उपयामवेहितोऽसीन्द्रायत्माब् विश्वकर्मण एकते जोनिरिन्द्राय स्माश्वकर्मणि विश्वकर्मन् विघाव्रगणे चातारमिन्द्रम वेणुरवध्यम् तद्मयिभिः समरमन्दपूर्वीरयमुगुरो ददास उभयामवे हितोय उपयामगृहीतोस्य नये त्वागाय छन्दनं गृह्णामीन्द्रायत्वान्दनं गृह्णामि विपेद्य त्वां देवेभ्यो जगच्छन्द गृह्णाम्यनुष्टृप्तेऽभिः वृहीनां द्वावत्मन्नाधूनोमि कुकूननान् द्वावत्मन्नाधूनोमि भण्डनान् त्वावत्मन्नादूनोमि मदिन्दमानान् त्वावत्मन्नाधूनोमि मधुन्दमानां त्वां पद्मन्नाधूनोमि शुक्रन् द्वा शुक्र तपुभक्मूरूपं मृगवश्च रोच देवेय शुक्राः शुक्रश्च पुरोगाः सोमाः सोमश्च पुरोगाः यत्ते सोमादाभ्यन्नामजाग्रविदस्मै त्वार्णामिदस्मै ते सोम सोमाय स्माहा पूजित्वं देवजोमाग्नेः प्रियं पादोऽपि भजित्वन्दसोमेन्द्रजप्रियं पादोऽपि ह्यस्मच्छघात्वन्देवजोमभिसेवान् देवानां प्रियं पादोऽपीः इह रतिरिह रमध्वमिह ज्योतिरिहस्व ज्योतिः स्वाहा उपसृजन् धरुणं मा त्रे धरुणो मातरन्धयन् रायत्वोगमस्मासु दीधर सत्रस्य ऋद्धिरस्य गन्म ज्योतिरमृता अभूमु दिवं मृदिव्या अध्यारुहा ुवन्तमिन्द्रावता पुरो युधादो नावृतन्यादपतन्तमिद्धतं वज्रेण तन्तमिद्धतम् दूरे जक्ताय छन्दद्गहनञ्जीनक्षतो अस्माकूरसून् परिदूरविश्वतो धर्मादरे गीष्टविश्वसाः भूरभुवाः स्वाहाद् प्रजाः प्रजाभिः यामसुवीरा परमेश्च्यभिधीताः परमेश्च्य प्रजावद्वाज् व्याहृतायामन्दो अच्छेतः सवितासन्यां विश्वकर्मादीक्षायाम्बूमक्रज्यामिन्द च मरुदचक्रजायो पोत्थितोऽसुरा पण्यमानो मित्राः क्रीतो विष्णुः जिगीवितपुरावासन्नो विष्टुर्नन्दिका रूयम सोम आगत वरुण आजाजनु्निराग्निज इंद्रु हर दर्भो वाव विश्व देवा अग्नूयुगोन्ुक्त विष्णुरा प्री सब आप्याज मनो शम्भ्रियमाणो वायुः पूयमानाः शुक्राः पूताः शुक्राः क्षीरश्रीर्मीरतुजीर्विपेदेवाष्टमदेवून्नितो सुहृहो मायोज्यतो द्रोहूयमानुभ्यावृतोनुरक्षाः प्रतिख्यातो वक्षो वक्ष्यमाणाः पितरो नाराजपुंसाः सन्नाः सिन्धुरवहृतायोज्यतः समुद्रोऽव्यवर्यमाणाः सलिलाः प्रकृतो जयो रोजसा कविता रजागुरिबीर्ये दुर्गीरतमासविष्ठा यावकेते अप्रवीता सहो हृर्विष्णु अगन्वरुरापूर्बभूतौ हु। देवान्दिवमगन्यतस्ततो माद्रविणमस्तु मनुक्षानन्दर्कमगम्यतस्ततो माद्रविणमस्तु पीतेन्दृदिवीमगमन्यतस्ततो माद्रविणमस्तु जङ्गञ्जलोकमगन् यतस्ततो मे भूतो सदृशगुंशतन्दवो देव्य निरेज इमञ्जज्ञा ददन्ते एकाञ्छिन्नवे दधामि स्वाहा धर्मोऽप्येतु देवान् यज्ञस्य दोः विदहा पुरुत्राजोऽष्टदादिवमन्वातता नु च यज्ञ दुक्ष्वमहिमे प्रजायाग्मुरायतोहं विश्वमायुरधीय स्वाहा आपवस्व हिरण्यवदष्वत्सोमवीरवतो जङ्गोमर स्वाहा इति अष्टमः वेदपुरुषारणमस्तु